हरि ओम् श्रीगणेशाय नमः श्रीगौरीशङ्कराभ्याम् नमः अथ श्रीशिवमहापुराणे विजेश्वरसंहितायाम् चतुर्विंशोऽध्यायः भस्महात्मम् श्रु उवाच द्विविधम् भस्मसम्प्रोक्तम् सर्वमङ्गलदम् परम् तत्रकारमहम् वक्ष्ये सावधानतया शृणु एकं ज्ञेयं महाभस्म द्वितीयं स्वल्पसंज्ञकम् महाभस्म इति प्रोक्तम् भस्म नामाविधम् परम् तद्भस्म त्रिविधं प्रोक्तम् श्रोतम् स्मातम् च लौकिकम् भस्मैव स्वल्पसन् हि बहुधा परिकीर्तितं श्रौतं भस्म तथास्मातम् द्विजानामेव कीर्तितम् अन्येषामपि सर्वेषाम् अपरम् भस्मलौकिकम् धारणम् मन्त्रस प्रोक्तम् द्विजानाम् केवलं धारणं येयं। ज्ञेयम् अन्येषाम् मन्त्रवर्जितम् आग्नेयम् उच्यते भस्म दग्धोमयसम्भवम् तदपि द्रव्यमित्युक्तम् त्रिपुण्ड्रस्य महामुने अग्निहोत्रोत्थितम् भस्म सङ्ग्राह्यं वा मनीषिभिः अन्ययज्ञोत्थितं वापि त्रिपुण्डस्य च धारणे अग्निरित्यादिभिर्मन्त्रैः जाबालोपनिषद्गतैः सप्तभि धूलनं कार्यम् भस्मनास जलेन च वर्णनामाश्रमाणां च मन्त्रोतोन्मन्त्रतोऽपि च त्रिपुण्डोद्धूलनं प्रोक्तम् च बाली आदरेण च भस्मनोद्धूलनं चैव यथातीर्य त्रिपुण्डकम् प्रमादादपि मोक्षार्थी न त्यजेदिति वै शिवेन विष्णुना चैव श्रुतं तीर्यक्त्रिपुण्डकम् भूमादेवी च लक्ष्म्या च श्रुतं मन्यैश्च नित्य च ब्राह्मणैश्चत्रियैर्वह्यै क्षुद्रैरपि च शङ्करै अपभ्रंशे धृतम् भस्म त्रिपुण्डोद्धुद्धूलनात्मना उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये तेषां नास्ति समाचारो वर्णाश्रयम समन्वितः उद्धूलनं त्रिपुण्ड्रञ्च श्रद्धया नाचरन्ति ये तेषां नास्ति विनिर्मुक्ति संसारा जन्मकोटिभिः उद्धूलनं त्रिपुण्ड्रञ्च श्रद्धया नाचरन्ति ये तेषां नास्ति शिवज्ञानम् कल्पकोटिशतैरपि उद्धूलम् त्रिभुण्ड्रम् च श्रद्धया नाचरन्ति ये ते, ते महापातकैर्युक्ता इति शास्त्रीयनिर्णय उद्धूलनं त्रिभुण्ड्रम् च श्रद्धया नाचरन्ति ये तेषामाचरितम् सर्वम् विपरीत ुक्तानाम् जन्तूनाम् सर्वविद्वीषाम् त्रिपुण्डवद्धूलनद्वेषु जायते सुदृढम् सुदृढम् मुने शिवाग्निकार्यम् यकृत्वा कृत्वा कुर्यात्रि आयुषात्मवेत् मुच्यते सर्वपापयतु स्पृष्टेन भस्मना नर स्थितेन भस्मना कुर्यात् त्रिसन्ध्यम् यत् सर्वपाप विनिर्मुक्तः शिवेन स मोदते चितेन भस्मना कुर्यात् ललाटे तु त्रिपुण्डकम् ये योऽसो अनादिभूतान् हि मृतो भवेत् अकृत्वा भस्मना स्नानं न जपेत् वैषडक्षरम् त्रिपुण्ड्रं च रचर्चित्वा तु विजेन भस्मना जपेत् हृदयो वा धमो वापि सर्वपान्वितोऽपि वा उपपान्विधो वापि मूर्खो वा पतितोऽपि वा यस्मिन् देशे वसेन्नित्यम् भूतिशासनसंयुतः सर्वतीर्थैश्च क्रतुभिः सान्निध्यम् क्रियते सदा त्रिपुण्ड्र सहितो जीव पूज्य सर्वै सुरासुरे पापान्वितोऽपि युद्धात्मा किं पुनः श्रद्धया युतः यस्मिन् देशे शिव ज्ञानी भूतेशासनसंयुतः गतो यदृच्छयाद्यापि तस्मिन् तीर्था समागतः बहुनात्र किमुक्तेन दार्यम् भस्म सदा बुधै लिङ्गार्चनम् जप्यो मन्त्र ब्रह्मणा विष्णुनः वापि रुद्रेण मुनिभिस्वरैः भस्मधारणमाहात्म्यम् न शक्यम् परिभाषितुम् इति वर्णाश्रमाचारो लुप्तवर्णक्रियोऽपि च पापात्सकृत्रिपुण्ड्रस्य धारणात् सोऽपि मुच्यते ये भस्मधारिणम् तक्त्वा कर्म कुर्वन्ति मानवाः तेषाम् नास्ति विनिर्मोक्ष संसाराज्जन्म कोटिभिः तेनाधीतम् सर्वम् नुष्ठितम् येन विप्रेण शिरसि त्रिपुण्ड्रम् भस्मनाकृतम् ये भस्मधारिणम् दृष्ट्वा नराकुर्वन्ति ताडनम् तेषाम् चाण्डलतो जन्म ब्रह्म नूह्यम् विपश्चिता मानस्तोकेन मन्त्रेण मन्त्रितम् भस्मधारयेत् ब्राह्मण क्षत्रियत्रैव प्रतिष्वङ्गेषु भक्तिमान् वश त्र्यम्बकेनैव क्षुद्र पञ्चाक्षरेण तु अन्यासां विधवासीणां विधि प्रोक्तः च शूद्र वै पञ्चब्रह्मादिमनुभिः गृहस्थस्य विधीयते त्र्यम्बकेन मनुनः विधिर्वै ब्रह्मचारिणः अघोरेणाथ मनुनः विपिनस्थ विधि स्मृतः प्रणवेनैव त्रिपुण्ड्रायदीनिकारयेत् अतिवर्णाश्रमे नित्यम् शिवोऽहम् भावनात् परात् शिवयोगी च नियतम् ईशानेनापि धारयेत् न त्याजम् सर्ववर्णै जीवे सरेति शिवशासनम् भस्मसंस्नानेन यावन्त कणास्वाङ्गे प्रतिष्ठिता धावन्ति शिवलिङ्गानि तन्नो धत्ते धारकः ब्राह्मण क्षत्रिया वैश्या क्षुद्रा चापि च शङ्करः त्रियोथे विधव बाल प्राप्ता पाखण्डिका तथा ब्रह्मचारी गृहे वन्य संस्था संन्यासी वा तथा नार्यो भस्मत्रिपुण्ड्राङ्का मुक्ता एव न संशय वन्धी राह समो यथा ज्ञानाज्ञानाधृतं भस्मरे पावे सकलं नरं नरम् नाशनीयाज्जलमन्नमल्पमपि वस्माक्षि धृत्या विना भुक्त्वा वाथ गृहीव नीपतयति वर्णी तथा शङ्करः एनोभुं नरकं प्रयाति स ददा गायत्री वर्णानां तु यते तु मुख्यप्रणव जापेन मुक्तिर्भवेत् त्रिपुणं ये विनिन्दन्ति निन्द विनिन्दन्ति जिवमेव ते धारयन्ति च ये भक्त्या धारयन्ति तमेवते, ते दिग्भस्मरयितं भालं दिग्रामम् अशिवालयं दिग्गणेशाचनं जन्म दिग्विद्या शिवाश्रयाम् ये निन्दन्ति महेश्वरन्ति जगताम् आधारभूतं हरम् ये निन्दन्ति बुद्रिपुण्डधारणकरं दोषसु तद्दर्शने ते वै शङ्कर सुकरासुरखर शक्रोष्टुकि जोपमाता एव भवन्ति पाप परमा ते नार केवलम् ते दृष्ट्वा शशिभास्करौ निशिदिने स्वप्नेऽपि नो केवलम् पश्यन्तु श्रुतिरुद्रसूक्त जपतु मुच्चेत से नादृता सत्सम्भाषणतो भवेधि नरकम् निस्तार वा नास्थितम् एवस्मादिविधारणम् हि पुरुषम् निन्दन्ति मन्दाहिते न तान्त्रिकस्तु अधिकृतो नोधपुण्डरो मुने सन्तप्तचक्र चिह्नत्र शिव यज्ञे बहिष्कृतः तत्रैते बहवो लोका गृहजा बलचोदिताः ते, ते विचार्या प्रयत्नेन ततो भस्मारतो भवेत् यच्चन्दनै चन्दन केऽपि मेश्रम् धार्यम् हि एव त्रिपुण्ड भस्मना विभूति भारोपरि किञ्चनापि धार्यं च दानो यदि सन्ति बुद्धय स्त्रीवि श्रीपुण्ड्रमलकाय वधि धारणीयं भस्मद्विजादिभिरथो विधवाभिरेवं तद्वत्सदाश्रमवतां विशदा विभूति भार्यापवर्गफलदा सकलाघन्द्री त्रिपुण्ड्रम् कुरुते यस्तु भस्मना विधिपूर्वकम् महापातपातकसङ्गाते मुच्यते चोपपातके ब्रह्मचारी गृहस्थो वा न प्रस्थोऽ यदि ब्रह्मक्षत्राश्च विच्छुद्र तथा नेपतिताधमः उद्धूलन धृत्वा शुद्धा भवन्ति च भस्मो विधिना सम्भ्य पापराशिं विहाय च भस्माधारिविशेषेण त्रिगो हत्यादिपातकै वीरहत्याश्वहत्याभ्याम् मुच्यते नात्र संचय परद्रव्या प्रहरणम् परदाराभिमर्शनम् परनिन्दा परक्षेत्र रणम् परपीडनम् सस्यारामादिहरणम् गृहदाहादिकर्म च गोहिरण्यम् महिष्यादि तिलकम् बलवासधाम् अन्नधान्यजलादीनां निचेभ्यश्च परिग्रह दशवेश्या मतङ्गीषु वृशलीषु नटीषु च रजस्वलासु कन्यासु विधवासु च मैथुनम् मासश्चर्मरतादीनाम् लवणस्य च विक्रयः पैशून्यम् कूटवादाश्च साक्षी मिथ्याभिलाषिणाम् एवमादिन्यसङ्ख्यानि पापानि विविधानि च सद्यैव विनश्यन्ति त्रिपुण्ड्रस्य च धारणात् शिवद्रव्या शिवनिन्दा च कुत्रचित् निन्दा च शिवभक्तानाम् प्रायश्चित्ते न शुध्यते रुद्राक्षम् यस्य गात्रेषु ललाटे तु त्रिपुण्डकम् स चाण्डालोऽपि सम्पूज्य सर्ववर्णोत्तमोत्तमः यानि तीर्थानि लोकेऽस्मिन् गङ्गाध्यासी चर्चया स्नातो भवति सर्वत्र ललाटे तु त्रिपुण्डकम् सप्तकोटि महामन्द्रा पंचाक्षर देवानाम, तथान्य कोटिश मंत्र कवल्य हेतव अंत्रक मुने वैश्या स्यु योगपुंडक सहस्रम पूर्व जाता सहस्रम जनता जातीक ये भुक्त्वा अखिलान् भोगान् दीर्घायुर्व्याधिवर्जितः जीवितान्ते च मरणम् सुखेनैव प्रपद्यते अष्टैश्वर्य गुणोपेतम् प्राप्य दिव्य वपु शिवम् दिव्यम् विमानमारोह्य दिव्यत्रिदशम् सेवितम् विद्याधराणाम् सर्वेषाम् गन्धर्वाणाम् रोजसाम् लोकेषु च यथाक्रमम् भुक्त्वा भोगान् सुविपुलान् प्रजेशानाम् पदेषु च ब्रह्मणे पदमासाध्य तत्र कन्या शतम् रमेत् तत्र ब्रह्मायुषमानम् भुक्त्वा भोगान् अनेक च विष्णो लोके लभेद् भोगम् यावद् ब्रह्म शतात्ययः शिवलोकम् तदप्राप्य लब्ध्वेष्टम् कामम् अक्षयम् शिव सा युज्यमाप्नोति संश्रयो नायताम् सर्वोपनिषदानुसारम् समालोक्य मुहुभुः इदमेव हि निर्णीतम् परं श्रेयस्त्रिपुण्डकम् विभूतिम् निन्दते यो वै ब्राह्मण शून्यजातकः प्रयाति नरके घोरे यावद्ब्रह्म चतुर्मुख शाधे वैश्वदेवे सुरार्चने धृतत्रिपुण्डभूतात्म मृत्युं जयति मानव जलस्नानं मलत्यागे भस्मस्नानं सदाशुचि मन्त्रस्नानं हरे पापम् ज्ञानस्नाने परं पदम् सर्वतीर्थेषु यत् पुण्यं तत्फलं समवाप्नोति भस्मस्नानकरो नरः भस्मस्नानम् परम् तीर्थम् गङ्गास्नानम् दिने दिने भस्मरूपी शिव साक्षात् पावनं न तदूनम् न दध्यानम् न तद्दानम् च पोनसः त्रिपुणरेण विनायेन विप्रेण वानप्रस्थस्य कन्यानाम् दीक्षाहीन नृढां तथा माध्याह्नात्राग जलैर्युक्तम् परतो जलवर्जितम् एवं त्रिपुण्ड्रम् यः कुर्यात् नित्यम् यत् मानसः शिवभक्तः स विन्येयो भुक्तिम् मुक्तिम् च विन्दति यस्याङ्गेनैव रुद्राक्ष एकोऽपि बहुपुण्यतः तस्य जन्मनिरर्थम् च त्रिपुण्ड्ररहितो यदि एवम् त्रिपुण्डमाहात्म्यम् समासात् कथितम् मया रहस्यम् सर्वजन्तो नरम् गोपनीयमिदम् त्वया तिस्रो रेखा भवन्त्येव स्थानेषु मुनिपुङ्गवः ललाटादिषु सर्वेषु यथोक्तेषु बुधैर्मुने भुवोर्मध्यम् समारभ्य यावदन्तो भवेद्वौ तावत् प्रमाणम् सन्धार्यम् ललाटे च त्रिपुण्डकम् मध्यमानामिकाङ्गुल्या मध्ये तु प्रतिलोमतः अङ्गुष्ठेन कृता रेखा त्रिपुण्ड्राख्याभिधीयते मध्येङ्गुलीभिराभिराधाय तिसृभिर्भस्म यत्नतः त्रिपुण्ड्रम् धारयेद्भक्त्या भुक्ति मुक्ति प्रदम्बरम् तिसॄणामपि रेखानाम् प्रत्येकम् नवदेवताः सर्वत्राङ्गेषु आवक्ष्ये सावधानतया शृणु अकारो गार्हप्रत्याग्नि गुर्धर्मश्च रजोगुण ऋग्वेदश्च क्रियाशक्तिः प्रातः सवनमेव च सहारेव रेखाया प्रथमाया देवता विज्ञेया मुनिषा दूला शिवदीक्षा परायणे उकारो दक्षिणाग्निश्च नभस्तत्वम् च सवनम् इच्छाशक्त्यन्तरात्मके महेश्वरश्च रेखाय द्वितीयाय च देवता विज्ञेया मुनिषा दूले शिवदीक्षा परायणे मकारा वह्नियौ च ज्ञानशक्ति सामवेद तृतीयं सवनं तथा शिवश्चैव च रेखाय तृतीयाय च देवता विज्ञेय मुनिष दूल शिवदीक्षा परायणौ एवम् नित्यं नमस्कृत्य सद्भक्त्या स्थानदेवता त्रिपुण्रम् धारयेत् शुद्धौ भुक्तिम् मुक्तिम् च विन्दति इत्युक्ता स्थानदेवा च सर्वाङ्गेषु मुनीश्वरः तेषाम् सम्बन्धिनो भक्त्या स्थानानि शृणु साम्प्रतम् द्वादश द्वात्रिंशत् स्थानके षोडशस्थानकेऽपि च अष्टस्थाने तथा चैव पञ्चस्थाने पितान्यसे उत्तमाङ्गे ललाटे च कर्णयो नेत्रयोस्तथा नासावकलेष्वेवं हस्तयोरुभयोस्ततः कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयो न भूमुष्कद्वये चैवम् पूर्व गुरुगुल्फे च जानुनि जङ्घाद्वये पदद्वन्द्वे द्वात्रिंशत् स्थानमुत्तमम् अग्न्यभूयु दिग्देश दिक्पालान् वसुभि सह ध्रवाध्रुवश्च सोमश्च आपश्चैव निलोन्नलः पत्युषश्च प्रभातश्च वसवोष्टो प्रकीर्तितः एतेषां नाम मात्रेण त्रिपुण्ड्रम् धारयेद्बुधा कुर्याद्वा षोडशस्थाने त्रिपुण्ड्रम् तु समाहितः शीर्षके च ललाटे च कण्ठे चांसद्वये भुजे कुर्परे मणिबन्धे च हृदये नाभिपार्श्वके पृष्ठे चैव प्रतिष्ठाय यजेत्तत्राश्विदैवते शिवम् शक्तिम् तथा रुद्रम् ईशम् नारदमेव च मादिनवशक्ति च एता षोडशदेवताः न सत्यो दश्र कष्टैव अश्वेन अथवा मूर्निकेशे च कर्णयोर्वदने तथा बाहुद्वये च हृदये न ध्यामुयुगे तथा जानुद्वये च पदयोः पृष्ठभागे च युवश्चन्द्रश्च रुद्रको विघ्नेशो विष्णुरेव वा त्रीचैव हृदये शम्भो तथा नाभो प्रजापति नागैश्च नागकन्या च उभयोर्षिकन्यकः पादयोश्च समुद्रा च तीष्ठा पृष्ठे विचालतः इत्येवम् षोडशस्थानम् अष्टस्थानमथोच्यते कर्णद्वयम् मनोत्तमम् असंयुग्मम् च हृदयम् नाभिरित्येवमस्तकम् ब्रह्मा सप्त देवता च प्रकृतिता इत्येवं च समुद्दिष्टम् भस्मवेद्भिर्मुनीश्वरः अथवा मस्तकम् बाहू हृदयम् नाभिरेव च पञ्चस्थानान्यमुन्याहु धारुणे भस्मविज्जनः यथासम्भवम् यथासम्भवनम् कुर्यात् देशकालाद्यपेक्षया उद्धूलनेऽप्य शक्ति चेत् त्रिपुण्डरादीनि कारयेत् त्रिनेत्रम् त्रिगुणाधारम् त्रिवेदजनकम् शिवम् स्मरन्नमः ललाटे तु त्रिपुण्डकम् ईशाभ्याम् नम पाशयोश्च त्रिपुण्डकम् बीजाभ्याम् न इत्युक्त्वा धारे तु प्रकोष्ठयो कूर्यादध पितृभ्याम् च उमेशाभ्याम् तथोपरि भीमायति तथा शिरसे पश्चिमे तथा इति श्री शिवमापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् भस्मधारणवर्णनो नाम चतुर्विंशोऽध्यायः श्रीगौरी शङ्करार्पणमस्तु